साध्या um, वै सुवर्गकामायतगं षड्रात्रमपश्यन्तमायन्तेना यजन्त ततो वैज सुवर्गं लोकमाय निज देवं विद्वागं छैरेव प्रतिष्ठन्ति बृहद्रसंतराभ्यां वारसं बृहदाभ्यामेव यं यथो अनजोरेव प्रतिष्ठन्त्ये देवै यज्ञस्याभ्यामेव स्वर्गं लोकं यन्त्यग्निष्टोमो भवति कैजदेवावरुन्धते कञ्चदशो भवतीन्द्रियमेवावरुन्धते सप्तदश भवत्यन्नाद्यस्यांसो भवति प्रतिष्ठिमेवात्मन् दधते त्रयस्त्रिगुंसो भवति प्रतिष्ठिजोहविधात्रेण जयरन्नाश्व क्रीपदे भवतःगस्य समष्ट्या प्रतिष्ठित्यै प्राञ्चो यान् त्रिप्राणि वैदेव प्रतिष्ठां गच्छन्ति यदा दशतं कुर्वन्तं शदायुः पुरुषश्चतेन्द्रियुष्येन्द्रिजे प्रतिष्ठन्ति यदा शतकं सहस्रं कुर्वन् संहितोपासौ लोकोपुमेव लोकमभिजयन्ति यदेषाम् रमे जयदा राजे जयरन्नसैकमुत्थानन्तद्धितीर्थम् ौदादगिरकामयत पशुमान् श्यामयषदेतगं सप्तरात्रमाह रत्तेना यजत ते न वै सदावन्दो ग्राम्याः पशवस्तानवारुन्ध जं विद्वान् सप्तरात्रेण यजते भवति सप्तग्राम्याः पशवः सप्तारण्याः सप्तछन्दानि भवति तेज एवावरुन्धे पञ्चदश भवतीन्द्रियमेवावरुन्ध सप्तदशो भवत्यन्नाद्यस्यावरुद्ध्यासौ प्रैवतेन जायतजे कविपुंसो भवति प्रतिष्ठित्यासौमेवात्मन्धत्ते त्रिनवो भवति विजित्यै पञ्चविगुंसो नष्टो मो भवति प्रजापतेनाख्यै महावतमानन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो दिरात्रो भवति सर्वस्याभिजित्य प्रत्यक्षम् पूर्वेष्वहस्तु पृष्ठान्यपेयुः प्रत्यक्षम् विश्वसि यथापसेदत्येवमुत्तममहस्यान्नैकरात्रश्च नरे पूर्वेष्वहस्वयम् देयम् वारसंरमसो गृहदाव्यामेव नयन्त्यथो अनयो देव प्रतिष्ठन् द्विगत्प्रत्यक्षम् विस्पति पृष्ठान्युपजम् ति यथा प्रत्वा गृहस्वजलगामयत ब्रह्मवर्चसे स्यामि दि सजगमष्टरात्रमपश्यत्तमाहरत्रेणायजतरो वै स ब्रह्मवर्चस्य भवद्य एवं विद्वानष्टरात्रेण यजत ब्रह्मवर्चस्यैव भवत्यष्टरात्रो भवत्यष्टाक्षरा गायत्री गायत्री ब्रह्मवर्चसं गायत्रिजैव ब्रह्मवर्चसमवगुन्धेष्टरात्रो भवति ्रह्मवच्च समवरुन्थ त्रिविदग् तेजदेवावरुन्ध पञ्चदश भवतेन्द्रियमेवावरुन्थे सप्तदशो भवत्यं स्वभवति प्रदक्षमेव त्रयस्त्रिं स्वभवक्षे पञ्चविंश भवति प्रजाकृते रात्रि महाप्रतवानन् जावरुन्धे विश्वजित् सर्वपृष्ठो निरात्र भवति प्रजापति प्रजा, प्रजा असजतता स्रष्टाः क्षुधन्यायन् स जतवरात्र प्रजाभ्यो कल्पत यरिः प्रजाः क्षुधन्निगच्छ युस्तरि नवरात्रेण यजे ते मेहि वा देतासान् लोका अगक्ता असैताः क्षुभन् निगच्छन्माने वाभ्यो लोकान् कल्पयतितान् कल्पमानान् प्रजाभ्यो न े स्मायिने लोकावोर्जं रजासु धादित्रियात्रेणैव लोकं गर्भयति त्रीडात्रेणां दरिक्षं त्रिडात्रेणामं लोके यथा गुणै गुणमण्वस्यत्येवमेव तल्लोके लोकमन्वस्य नित्यां भावा यज्ञोतिर्गौरायुरिति ज्ञाता स्तोमा भवन्तिरन्तरिक्षं गौरसा वायुरेष्वेव लोकेष्व प्रतिष्ठन्ति हङ्गच्छति नवरात्रो भवत्यभिपूर्वमेवास्मिन् द्वे जोधादिजो ज्योगामजारी स्यात्समवरात्रेण गचेतप्राणाहि वा जापजयकामयत प्रजायते दिसजेतं दश होदारमपश्चमजुहोत्तेन दशरात्रमसृजततेन दशरात्रेण प्राजायत दश रात्रायते शिष्यमाणो दश होदारञ्जुहुयाद्दश हो त्रैव दशरात्रंसृजते तेन दशरात्रेण प्रजायते मयि राजोवादेश यज्ञो यद्दश विद्वान्तशरात्र नयजदराजमेव गच्छति प्राजापत्येवं विद्वान्तशरात्र नयजत् प्रेजाय तजिन्द्रो वै सद्रं देवताभिरासे जामृतमगच्छत्स प्रजापुवाधापत्तस्माजे दशरात्रं प्रायच्छटमाहरतेनायजतभिर्देवताभिर्जावृतमगच्छद् यज एवं विद्वान् त्रेण गजते व्यावृतमेव वात्मना त्रिव्यति त्रिकुद्वादेश यो यद्दशरा त्रयस्तकुत्पञ्चदशस्तकुदे कविगुंसः पुत्रयस्त्रिगुं सोयदेवं विद्वान् दशरात्रेण यजते त्रिकुदेव समानामं भवति यजमानः पञ्चदशो यजमानये कविगुंसो यजमानस्त्रयस्त्रिगुंसः पुरजितरा अपि च यजमानो दशरा त्रेण जयमपर्यो हदस्य न वि कश्चनो वा ज्ञातो शृण्वे देवासुरासंयत्ता आसन् ते देवाजेता देवपुरा अपश्य न यद्दशरात्रस्ताः पर्योहन्त तेषां न गुतश्च नो वा याधो भवत्ततो देवा अभवन्वरासुरायो भ्रातृवान् स्यात्सदश रात्रेण हि चेत देव भवति स्तोमस्तोमस्योमस्तिर्भवति भ्रातृव्योपस्तिं गुरुदे चामि वादेतत्कुर्वन्ति यज्यायानुं सिद्धि स्तोममुपेत्यकणिरागुं समुभ्रयन्ति यदग्निष्टोम सामान्यवस्ताच्च भवन्ति जामि त्वाय त्रिलग्निष्टोमोग्निष्टुदाग्नेरीषु भवति ते च देवावरुन्धे पञ्चदशबुद्ध्य ष्टो मो वैष्वेवेषु पुष्टिमेवावृन्ध सत्यदशो नष्टो मः प्राजावत्यासु तीव्रसोद्यस्यात्मन्धत्य सप्तदशो नष्टो मः प्राजावत्यासोपहव्य उपहवमेव गच्छति तृणवावग्नष्टो मा पित ऐन्द्रेषु विजित्य ै त्रयस्त्रिकं स मुख्यो ऐश्व देवेषु देवजत्सर्वम् प्रजा वै प्रजागामाः प्रजान्ना विन्दन्त ते गामयन्त प्रजागुं सृजेमहि प्रजामवरुन् जेमहि प्रजां विन्देमहि प्रजावन्तस्यामे दि ते तमेकादशरात्रमपश्यन्तमाहरन्ते न यजन्त ततो प्रजामविन्दन्त प्रजावन्तो भवन्तयतवो भवन्तदार्तमार्तव तस्मादावामुच्यन्ते ये विद्वान् स एकादश रात्रमासते प्रजामेव सृजन्ते प्रजामवरुम्भते प्रजाम् विन्दन्ते प्रजावन्तो भवन्ति ज्योतिरतिरात्रो भवति ज्योतिरेव पुरस्कार्येषु वर्गस्य लोकस्यानुक्षात्यै मृष्टो षण्वार्षद् पृष्ठानि ष्ठैरेवर्तो नरोहन्संवत्सरन्ते तिष्ठन्ति चतुर्विगुं स्वभवति चतुर्विगुं सत्यक्षरा गायत्रे गायत्रायत्रिजमेव ब्रह्मवर्त च प्रतिष्ठन्ति चतुश्चत्वारिकं स्वभवति चतुश्चत्वारिकं शतक्षरातृष्टिन्द्रियं द्रष्टुष्टुभ्येवेन्द्रिय प्रतिष्ठन्त्यष्टाचत्वारिकं स्वभवत्यष्टाचत्वारिकं शतक्षरा जगति जागता प्रतिष्ठन्त्येकादश रात्रो भवति पञ्चवारि तव आर्तवाः पञ्च तु श्रेवार्तवेषु संवत्सरे प्रतिष्ठाय प्रजामवरुन्धतेति रात्रावभिदो <Marvinflanzen> ीन्द्रवादवाग्रान् गृह्णे राज्ञः कामयत यथा पूर्वं प्रजाः कल्पेरण्यति यज्ञश्च वैवृत्तिमनप्रजाः कल्पन्ते यज्ञश्चागत्रिमरणकल्पन्ते यथा पूर्वमेव प्रजाः कल्पयति मध्यायां प्राणेन वादे यस्यामिगति प्राण इन्द्रवायवः प्राणेनैवैमं समर्थयति मैत्रावरुणाद्रां गृह्णेरणेषान् दिक्षितानां प्रमेदेत प्राणापाणाभ्यां वादेते यजन्ते देशान्द्रीक्षितानां प्रमेयते प्राणावानौ मित्रावरुणौ परिहरन्दाश्विनाग्रान् गृह्णीतानुजावरोश्विनौ वै देवनामानुजावरोपश्चेवाग्रम्बिजयितामश्विना दे वेदस्य देवलायानुजा वरस्तादेवै वे नवग्रं बलिनयतः शुक्राग्रान् गृह्णीतगतश्री प्रतिष्ठा कामोऽसौ वा आदित्यशुक्रजेषोन्दोन्दं मनुष्यश्री गन्तानि वत्तरेन्दारभते पापीदान् भवति मन्थग्रान् गृह्णेताभिचरन्नार्तपात्रं वादे तज्जन्मन्थिपात्रं मृत्युमेवेन ग्राहगाजगाद्यमाच्छाग्रजमाग्रां गृह्णेत यस्य पिता पिता महाःपुण्यस्यादं न प्राप्नुजाद्वाचा वादे चन्द्रयस्य पितापिता महापुण्या भवत्यमात्युरय वैदन् यज्ञस्य वागवयदा सर्वेषां बाले तत्पात्राणामिन्द्रियं नाधिप्रजं ते सरस्वत्य सरस्वती वाचै वैनमधिप्रजं तैमाण्यरणानि गन्मेत्य मृत्योर्वे क्षेत्राण्यरणानि तेनैव मृत्योः क्षेत्राणि न गच्छति पूर्णाङ्ग्रहान् गृह्णी जादामया विनः प्राणान् वादेतस्य सुगच्छति यस्यामयति प्राणाङ्ग्रहाः प्राणानेवास्य शुचोमुञ्चत्रुदय दीरासुभवति जीवत्येव पूर्णाङ्ग्रहान् गृह्णीरान्य वर्जन्यो न वर्षे ृगच्छति यदि वर्जन्यो न वर्षति प्राणागः प्राणानैव ज्ञानागुम् श्रुतोमुञ्चति वाचप्रवर्षति गायत्रो वा ऐन्द्रवायवो गायत्वं वा ऋणीयमहस्तस्मा पाणिदेहन्नन्द्रवायवो स्वदेवेन माजत न गृह्णात्येतद्वै यज्ञमापद्यच्छन्दाविस्याप्नो जिगदाग्रजणस्व लिख्यते यत्रैव यज्ञमदृशं तदेवैलं पुनः प्रजन्ते जगन्मुखो वैद्विजीदस्त्रयाग्रो जागताहन्नाग्रजणो लिख्यते स्वदेवेन माजत न गृह्णात्यथोस्वेव छन्दो न परिजावर्तन्ते राथन्तरो वायैन्द्रवायवो राथन्त हस्तस्मा पञ्चमे अहं नेन्द्रवायव लिख्यते स्वदेवेन मागतने गृह्णाति बालो वै शुक्रो मार्हतलं षष्ठमहस्तस्माहन् शुक्रो लिख्यते स्वदेवैनमागतने गृह्णात्येतद्वै द्वितीयं यज्ञमापद्यन्दायस्त्यात्मादि ैस्तिभातृस्तेष्टु ह शुक्रो यत् सप्तमे नमायतने गृह्णात्यथोस्वमेव छन्दोनुवृत्तं देवाग् वाग्रणो वा गष्टममहस्तस्मादष्टमे अन्नाग्रयण विद्यते स्वदे नमायतने गृह्णादि प्राणो वा ऐन्द्रवायमः प्राणो नवमहस्तस्मान्नवमे हन्न स्वयवैनमायतले गन्धाद्येतद्वै तृतीयज्ञमापद्यच्छन्दा यस्याप्नोति जतैन्द्रवायव स्वज्ञमदि एवैनं पुनः प्रयुन्ते सोऽस्वमेव शान्तो न पुर्तन्ते पथो वा यज्ञस्य यद्दशममहद्दशमेहन्नैन्द्रवायवो गृह्यते यज्ञस्यैवान्तं गत्वा पथात् पन्थामभिहन्ति तादृगेव गच्छन्ता विश्वन्योन्यस्य लोकमभ्यध्यायन्तान्येतेनैव देवाव्यवाहयन्नैन्द्रवायवस्य वा एतदायतमैन्यच्चतुर्थमहस्तस्मिन्नाग्रहणो गृह्यते तस्मादाग जनस्यायतने नवमेहन्नैन्द्रवायवो गृह्यते शुक्रस्य वादे तदागतमयं पञ्चममहस्तस्मिन्नैन्द्रवायवो गृह्यते यस्मादेन्द्रवायवस्यायतने सप्तमेऽहन् शुक्रो गृह्यतः आन्द्रजनस्य बाले तदागतमयंमहस्तस्मिन् शुक्रो गृह्यते तस्मात् शुक्रस्यायतनेष्टमेहन्मान्द्रयो गृह्यते छन्दागश्चेतृ तिप्रभश्च सोऽम् वेदाथो दे देवता यदेव यज्ञे संविदम् दधाति तस्मादितमन्योन्यस्मै ददाति जामजगामजत प्रजा ये जयति वै स प्राजायत जक्त्वा जयत प्रजाय जयतिष द्वादश भात्रेण जयत प्रयवजाजते ब्रह्मपादिनपदं जलस्तो नूर्वं बलजञ्झेरण् भज कनीनि वेदज्युस्तस्मादति रात्रः पूर्वः प्रयुज्यते चक्षुषी येव यज्ञे छित्त्वा मध्यतः कनिलनिगे द्वतिगति यो वै गायत्रे ज्योतिष्पक्षां वेद ज्योतिषाभाषासु वर्गं वगमेधियापज्ञष्टो मौतौ पक्षौ हेन्तरेष्टा उच्यास आत्मा वै गायत्रे यमे प्रजापतविवादेषद्वादसधा विधितो यद्वादश रात्रो जापति रात्रौ तौ पक्षौ येन्दरेष्टावस्यास आत्मा ेण स्मृणो प्राणावेष प्राणानेव स्मृणोति सर्वासाम् वाजेते प्रजानाम् प्राणैरासते ये सत्रमासते तस्माः पृच्छन्ति किमेते सत्रिमलिति प्रियः प्रजानामुत्थितो भवति ज एवम् वेद न बादेशोऽन्यश्वानरस्वर्गाय लोकाय प्राभवतुः ततः आसीत् त्वे दे बादे तं जौहान् वर्गस्य लोकस्य प्रभो तोपादेते न प्रजापतिमया जयन्तेष्वार्धुनो दधितधुनोति हवारे प्रेक्षु यं विद्वान् द्वादशायतेऽस्मिन्न्छसमह सन्ताय प्राजच्छद्यमङ्ग्रेष्माजौषधि ौ हे मन्दसिश्रीरां ध्यां देमेन्द्रं प्रजापतिरयालत्ततोपायुन्द्र इन्द्र भवत्तस्मादाहुरानुजाभरश्च ज्ञशश्चेनान्द्रे जलते वै गुणपमत्ये प्रति गृह्णादि पुरुषगुणपमस्वगुणपं गौर्वान्नय्येन पात्रे मान्नम् बिभ्रति यत्तन्न धर्मे निजतिमलञ्जागत हे कजे तैकोहि प्रजापतिरात्रे क्षिणस्याद्वादशमासा प्रजाभज प्रजापतिर्वा वैरेषाजतेजस्त भिरात्मानम्बरदुन्धते वा अस्याशमत्तिमादुं सगुं सोः तिजः पुरोडाशम् अस्त्यष्टगुं सजः परिपापं पुरेशतुं सज आज्यं मज्जानं सजः सो मग्गस्वेदगुं सोऽपिध वा अस्य शेरुष्यानुष्पदः प्रतिग्रन्धादिजो द्वादशाहे Yeah, yeah. ैस्मे स्वाहा द्वाभ्या स्वाहा त्रिभ्य स्वाहा चतुर्भ्य स्वाहा पञ्चभ्य स्वाहा षड्भ्य स्वाहा सप्तभ्य स्वाहाभ्य स्वाहा नवभ्यस्वाहा दशभ्यस्वाहा एकादशभ्य स्वाहा द्वादशभ्य स्वाहा त्रयोदशभ्यस्वाहा चतुर्दशभ्य स्वाहा पञ्चदशभ्यस्वाहा षोडशभ्यस्वाहा सप्तदशभ्यस्वा स्वाहाष्टादसभ्य स्वाहैकान्नविकं सत्ये स्वाहा नवजं सत्ये स्वाहैकान्न चत्वारिकंसते स्वाहा नवचत्वारिकंसते स्वाहेकान्न षष्ठे स्वाहा नवषष्ठे स्वाहैकान्नाशीत्यै स्वाहा नवासेत्ये स्वाहैकान्नशताय स्वाहा शताय स्वाहा सर्वस्मे स्वाहा एकस्मै स्वाहा त्रिभ्य स्वाहा पञ्चभ्य स्वाहा सप्तभ्य स्वाहा नवभ्यस्वाहैकादशभ्य स्वाहा त्रयोदशब्जस्वाहा पञ्चदशभ्यस्वाहा सप्तदशभ्यस्वाहैकान्नविगुंसत्ये स्वाहा नवविगुंसत्ये स्वाहै काण्णचत्वारि विंशते शयेत्ये स्वाहा नवाशयेत्ये स्वाहे कान्मशपाय स्वाहा शताय स्वाहा त्वाभ्या भस्वाः चतुर्भ्यस्वाः षडभ्यस्वाहाष्टांभ्यस्वाः दशम्भ्यस्वाः <नौड़ा> द्वादश भ्यस्वाः चतुर्दशभ्यस्वाः षोडश भ्यस्वाष्टादशभ्यस्वाः निपुम्शक्ते स्वाहाष्टानवत्ते स्वाहा शताय स्वाहा सर्वस्मै स्वाहा त्रिंश स्वाहा पञ्चभ्यस्वाहा सप्तभ्य स्वाहा नवभ्य स्वाहैकादशब्द स्वाहा त्रयोदशब्ध े स्वाहैकान्नशताजस्वाहा शबाजस्वाहार्वस्मै स्वाहा चतुर्भ्य स्वाहाष्टाभ्य स्वाहा द्वादशब्द स्वाहा षोढशब्द स्वाहा लिघुम् शक्ते स्वाहा षण्णवत्ये स्वाहा शबाज स्वाहा सर्वस्मै स्वाहा पञ्चम् खस्वाः दशम् खस्वाः पञ्चदशम् खस्वाः विपुंसन्ते स्वाहा पञ्चनवत्ये स्वाहा सपा च स्वाहा सर्वस्मे स्वाहा दशभ्य स्वाहा विभिंसत्ये विपुंसते स्वाहा चत्वारिपुंसते स्वाहा शक्ये स्वाहा शीत्ये स्वाहा शतादस्वाहा सर्वस्मै स्वाहा पञ्चाशते स्वाहा शता यस्वाहा द्वाभ्यागं शताभ्याय स्वाहा द्विभ्यश्च्यस्वाः चतुर्भ्यष्टते यस्वाः पञ्चभ्यष्टदे जस्वाः षड्भ्यते ज्यस्वाः सप्तभ्यश्चवाहाष्टाभ्यश्च नवभ्यष्टते यस्वाः सहस्राजस्वाः सर्वस्मै स्वाहा शतारस्वाहा सहस्रा रस्वाहायुता रस्वाहायुतारस्वाहा प्रयुतादस्वाहा रस्वाहान्यद्भुदा नस्वाहा समुद्रादस्वाहा मध्यादस्वाहान्ताजस्वाहा परार्ध्याजस्वाहो स्वाहा युष्ठे स्वाहो देक्षदे स्वाहोद्विदे स्वाहोदितारस्वाहा स्वर्गाजस्वाहा लोकाजस्वाहा सर्वस्मै स्वाहा a oh. om